श्रीकरये नमः अथ अष्टाविंशोऽध्यायः श्रीभगवानुवाच परस्वभावकर्माणि न प्रशंसेन्न गर्हयेत् विश्वम् एकात्मकं पश्यन् प्रकृत्या पुरुषेण च परस्वभावकर्माणि यः प्रशंसति निन्दति स आसो प्रश्यते स्वार्थाद् असत्यभिनिवेशतः तैजसे निद्रयापन्ने नष्ट नष्टचेतनः मायां प्राप्नोति मृत्युं वा तद्वान्नार्थदृक्पुमान् किं भद्रं किमभद्रं वा दैवतस्यावस्तु न कियत् वाचोदितं तत् अनृतं मनसा ध्यातमेव चायाप्रत्याह्वया भासा ह्यसन्तोऽप्यर्थकारिणः एवं देहाधयो भाव यच्छन्त्या मृत्युतो भयम् आत्मैव तदितं विश्वं सृजते सृजति प्रभुः त्रायते त्रातिविश्वात्मा ह्रियते हरतीश्वरः तस्मान्न ह्यात्मनोन् यस्मादन्यो भवो निरूपितः निरूपितेऽयं त्रिविधा निर्मूलाभातिरात्मनि इदं गुणमयं विद्धि त्रिविधं मायया कृतं एतद्विद्वान्मदुतितं ज्ञानविज्ञाननैपुणं न निन्दति न च स्तौदे लोके चरतिसूर्यवत् प्रत्यक्षेणानुमानेन ना, निगमेनात्मसंविता आत्यन्तवत सञ्ज्ञात्वा निस्सङ्गो विचरे दीहा उद्धवो नैवात्मनो न देहस्य संश्रुतिर्द्रष्टृदृश्ययोः अनात्मस्वदृशोरीश कश्यशा तु बलभ्यते आत्मा व्ययो ज्योति अनावृतः अग्निवत् धारुवत् कश्येकसंश्रुतिः श्रीभगवानुवाच यावद्देहेन्द्रियः प्राणै आत्मनः सन्निकर्षणं संसारबलवांस्तावद् अपार्थोऽप्यविवेकिनः अर्थेह्य विद्यमानेऽपि संश्रुतिर्न निवर्तते ध्यायतो विषयानस्य स्वप्ने नर्तागमो यथा यथाह्यप्रतिबुद्धस्य प्रस्वापो भक्वनर्तभृत् स एव प्रतिबुद्धस्य न वै मोकाय कल्पते शोककर्षभयक्रोध लोभमोकस्पृहादयः अहङ्कारस्य दृश्यन्ते जन्ममृत्युश्चनात्मनः देहेन्द्रियप्राणमनोभिमानो जीवोन्तरात्मा गुणकर्ममूर्तिः शूद्रं महानित्युर्देवगीतः संसार आधवति कालतन्त्रः मनोवचप्राणशरीरकर्म ज्ञानासिनोपासनयासि धेन विचरयस्तृष्णः ज्ञानं विवेको निगमस्तपश्च प्रत्यक्षमैमतिह्यमथानुमानम् आद्यन्तयोरस्य यदेव केवलं कालश्च हेतुश्च ददेव मध्ये यथा स्वकृतं पुरस्तात् पश्चाच्च सर्वस्य हिरण्यं हिरण्मयस्य तदेव मध्ये व्यवहार्यमाणां ना नानापदेशै अहमस्य तद्वद् गुणत्रयं कारणकार्यकर्तृ समन्वयेन व्यतिरेकतश्च येनैव तुर्येण तदेव सत्यं न यत्पुरस्तादुतयन्नपश्चात् मध्ये च तन्न व्यवदेशमात्रं भूतं प्रसिद्धं च परेण यद्यत् तदेव तत्स्यादिति मनीषा अविद्यमानोऽप्यवभासते वैकारिको राजससर्ग ब्रह्मस्वयं ज्योतिरतो विभाते ब्रह्मेन्द्रियार्तात्मविकारचित्रम् एवं स्फुटं ब्रह्मविवेकहेतुभि परापवादेन विशारदेन चित्वात्मसन्देहमुपारमेत स्वानन्दतुष्टो किल कामुकेभ्यः नात्मा वपुः पार्थिवमिन्द्रियाणि देवाह्यसुर्वायुजलं कुत सह मनोन्नमात्रं दिशनाचसत्व, अहङ्कृति कं क्षितिरर्थसांह्यं समाहितैःकः करणैर्गुणात्मभिर्गुणो भवेन्मत्सुविविक्तधाम्नः विषिप्यमाणैरुतकिं नु दूषणं घनैरुपेतैर्विगतैरवेख्यं यथा न भो वाय्वनलाम्भु भूगुणैर्गतागतैर्वर्तुगुणैर्न सज्जते तथा क्षरं सत्त्वरजस्तमोमले रहं मते संश्रुतिहेतुभिः परं तथापि सङ्गपरिवर्जनीयो गुणेषु माया रचितेषु धावत् मद्भक्तियोगेन दृढेन यावत् रजो निरस्येतमनक्कयाश पुनः पुनः सन्धुतदि प्ररोहन् एवं मनोपक्वकषाय कर्म कुयोगिनं विद्यदि सर्वसङ्घं कुयोगिनो ये विहितान्तरायै मनुष्यभूतैस्त्रिधसोपसृष्टैः ते प्राक्तनाभ्यासबलेन भूयो युञ्जन्ति योगं न तु कर्मतन्त्रं करोति कर्म च जन्धु केनाप्यसौ चोदित आनिपदात् न तत्र विद्वान् प्रकृतौ स्थितोभि निवृत्तदृष्णस्वसुखानुभूद्या तिष्ठन्धमासीनमुतौ व्रजन्तं स यानमुक्षन्तमधन्तमन्नम् स्वभावमन्यत् किमपीहमानम् आत्मानमात्मस्तमतिर्नवेध नानोऽनुमानेन विरुद्धमन्य मन्यते वस्तुतया मनीषी स्वाप्नं यतोत्थायतिरोधानं पूर्वं गृहीतं गुणकर्मचित्रम् अज्ञानं आत्मन्यविक्तमङ्घं निवर्तते तत् न हृह्यतेनापि विसृज्य आत्मा यदा हि बानो हृदयोर्नृषशुक्षां तमोनि कन्यान्न तु सद्विधत्ते एवं समीक्षा निपुणा सती मे हन्यातमिश्रं पुरुषस्य बुद्धेः एष स्वयं ज्योति अजोप्रमेयं महानुभूतिः सकलानुभूतिः एको द्वितीयो वचसाम्बिरो मे येनेषिता वागसवश्चरन्ति एतावानात्मसम्माहो यत्विकल्पस्तु केवले आत्मनृते स्वमात्मानम् अवलम्बो न यस्य हि यन्नामाकृतिभिर्ग्राह्यं पञ्चवर्णमपादिधम् व्यर्थेनाप्यर्थबाधोऽयं द्वयं पण्डितमानिना योगिनो पक्वयोगस्य युञ्जतकाय उत्थितैः उपसर्गैर्विहन्येत तत्रायं विहितो विधिः योगधारणया कांश्चेत् आसनैर्धारणान्वितैः तपोमन्त्रोक्षतैःकांश्चेत् उपसर्गान् विनिर्दहेत् कंश्चिन्ममानुध्यानेन नाम सङ्कीर्तनादिभिः योगेश्वरानुवृत्तय वा हन्यात् अशुभदाञ्चनैः केचिद्देहमिमं धीरान् सुकल्पं वयसि स्थिरं विधाय विविधोपायैरथ युञ्जन्ति सिद्धयेम् न हि तत्कुचला धृत्यं तथा यासौ ह्यपार्पार्थकः अन्तवद्वाच्चरीरस्य फलस्येव वनस्पतेः योगं निषेवतो नित्यं कायश्चेत् कल्पता मियात् तच्छ्रद्ध्यायन्न मदिमान् योगम् उत्सृज्य योगी विचरन्मदपाश्रयः नान्तरायैर्विहन्येथ निःस्पृहस्वसुखानुभूः इति श्रीमद्भागवते महापुराणे एकादशस्कन्ते अष्टाविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सदगुरुनाथ मगराज की जय